श्रीमद्भागवत् महापुराणं दशस्कन्ध अथ त्रयोदशोऽध्यायः ब्रह्मजीकामोह अरुष्कानाश शेषोकुवाच साधुपृष्टं महाभाग त्वया भागवतोत्तम यन्नूतनं ययसी सस्य शृण्वन्नपि सतामयं सारभृतां निसर्गो यदर्थवाणी सति प्रतिक्षणं नभ्य वदत्युतस्य तं श्रियावृतानामिव साधुवार्तां शृणुस्वावहितो राजन्नपि गुह्यं वदामि ते ब्रूयो स्निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत तथा गवदनां मृत्यो रक्षित्वा वस्तुपालकान् सरित्पुलिनमानीय भगवानिदम् अब्रवीत् अहो तिरम्यम् पुलिनं वयस्याश्वकेलिसम्पन्मृदुला च बालुकम् पुटन् सरो गन्धहितालिपद्रिक ध्वनिप्रतिध्वानलसन्द्रुमाकुलम् अत्र भोक्तव्यम् अस्माभिरति वारुणं क्षुधार्जिताः वस्सा समीपे पपित्वा चरन्तु शनकैतृणम् तथेति पायि द्वार्भां दत्सानारुध्य साद्वले मुक्त्वा शिक्यानुभुभुजु समं भगवतामुदा मुदा कृष्णस्य विश्वं पुरराजमण्डलैः अभ्याननापुल्लशिशो वृजार्भका तहोपविष्टा विपिने विरेजुच्छदा यथाम्भोरुः कर्णिकाया केचित्पुष्पैर्तलैः केचिन् पल्लवैरङ्कुरैपलैः तिग्भिः त्वरिं त्वग्भिर्दिसद्भिश्च बभुजो कृतभाजनाः सर्वे मिथो दर्शयन्तः स्व स्वभोज्य रुचिं पृथं हसन्तो हासयन्तश्चाभ्यवज्रहोन् सहेश्वराः बिभ्रद्वेणुं जठर्पटयो शृङ्गवेते च कक्षे वामे पालो मशिनुकवलं तत्फलान्यङ्गुलीषु तिष्ठन्मध्येष्वपरिसृहृदो हास्य नर्म भीष्वैः स्वर्गे लोके मिशति बुविजे यज्ञभोग् बालकेलिः भारतैवं वस्तपेसु भुञ्जानि स्वच्युतात्मसु वस्ता त्वन्तर्वणि दूरं विविसूतृलोभिताः तान् दृष्ट्वा भयसन्त्रस्तान् रुचे कृष्णोषभिभयम् मित्राण्यासान् मां निर्मते हानेशे वस्तुकानहम् इत्युक्त्वा द्रिधरि कुञ्जा गह्वरे स्वात्मवस्तुकान् विचिन्वन् भगवान् कृष्णसपाली कवलो ययौ अम्भो जन्म जने सदन्तर्गतो मायार्भकस्य शिशूं द्रष्टुं मञ्जूमहित्वम् अन्यदपि तद्वस्त्रानितो वस्सपान् नत्वान्यत्र कृहान्तर्दधात केवर्तितो य पुरा दृष्ट्वा घासुरमोक्षणं प्रभुवत प्राप्त परं विस्मयम् ततो वस्सान् दृष्णुमैत्यपुलिनेऽपि च वस्पान् उभावपि वने कृष्णो विजिकाय समन्ततः पाप्य दृष्ट्वान्तर्विपिने वस्तान् पानाश विश्ववीन् सर्वं विधिकृतं कृष्णसहसा वजगामः ततः कृष्णो मुदं कर्तुं तन्मातॄणां च कस्य च उभयायितुमात्मानं चक्रे विश्वकृतेश्वरः यावद्वस्वस्सकाल्पकन्दपोर्यावत्कराङ्घ्रियादिकम् यावद यावद्यष्टिविषाणवेणुजलशिग यावद्विभूषाम्बरम् यावच्छीलगुणाभिधाकृते यावद यावद्विहारादिकम् यावद सर्वं विष्णुमयं गिरोऽङ्गवदज सर्वस्वरूपो बभौ स्वयमात्मात्मगोवत्सान् प्रतिवार्यात्मवस्तपैः क्रीडन्नात्मविहारैश्च सर्वात्मा प्राविसद्भजम् तत्तद्वत्त्वानपि सग्नित्वा तत्तम् गोष्ठे निवेशिष तत्तदात्मा भवद्राजन् तत्तत्सद्य प्रविष्टवान् तन्मातरो वेणुन् वेणुरवत्परोत्थिता उत्थाप्य दोर्भि परिरभ्य निर्भम् निर्भरम् स्नेहस्तु तस्तनयपयसुधाशुवम् मत्वा परम् ब्रह्मसुतान पायन् ततो रक्षा मञ्जलेपना लङ्काररक्षातिलकासनादिभिः सल्लालितस्वाचरितैः प्रहर्षयन् सायं गतो यामि यमेन माधवः गावस्ततो गोष्ठमुपेत्य सत्वरं हुङ्कारघोषै परिहूतसङ्गतान् स्वकान् स्वकान् वश्चतरान्पायन् मुहुर्लिहन् च स्रवदौधसंपयः गोगोपीनां मातितास्मिन् सर्वा स्नेहाधिकां विना पुरोवदास्वपि हरे स्तोकता मायाविना ब्रजौकसां स्वतोकेषु स्नेहवल्ल्याब्दमन्वहं सनैर्निसीमविभृषे यथा कृष्णे त्वपूर्ववत् इत्थमात्मात्मनात्मानं वस्त्रपादमिषेणस पालयन्वः सपो वर्षं क्रीडेवनगोष्ठयो एकदाचार्यन्वस्सान् स रामो वनमाविशन् पञ्चसासु त्रियामासु हायना पूर्णे ततो विदूराचरतो गावो वस्सानुपव्रतं गोवर्धनाद्रिशिरसि चरन्त्यो दशम् दृष्ट्वाथ तस्नेहवशो स्मृतात्मा स गोव्रजोत्यात्मपदुर्गमार्गः नृपातकुदग्रीव उदास्य पुज्यो गाधुङ्केतैरासृपया जवेन समेत्य गावोधूं वस्तान् वत्स्य वत्योऽप्यपाययन् गिलन्त्य युचाङ्गानि लिहन्त्य स्वौषधं पयः गोपास्तद्रोधनाया समोद्घलञ्ज्वन्युणां दुर्गाध्वकृच्छतोऽभ्ये च गोवस्यैतदि सुतान् तदीक्षणो प्रेमसाप्लुताशयान् जातानुरागागतमन्यवोर्भकान् उदुयदोर्भि परिरभ्य मूर्धनी घ्राणैरवापो ततः प्रवीं प्रवियसो गोपां शोकाश्लेषु निमृता यच्छाथनैरपगता तदनुस्मृत्य मृत्योदश्रवः व्रजस्य रामप्रेमर्थे वीक्षोत्कण्ठमनुक्षणं मुक्तस्तेन येष्वपतेष्वप्य हेतुवेद चिन्तयत्